vāsyam vāsyam īśeṣā vāsyam idam idam vāsyam īśeṣā vāsyam idam vāsyam idam idam vāsyam vāsyam idam sarvagyey sarvam idam vāsyam vāsyam idam sarvam इदां सर्वज्ञ सर्वमिदमिदां सर्वैद्य सर्वमिदमिदां सर्वैद्य सर्वज्ञ सर्वज्ञ सर्वम् यत्किङ्यत्किञ्चत्किञ्च किञ्च जगत्याञ्च किङ्किञ्च जगत्याम् जगत्यांच जगत्यांच जजगत्यांच जगतजगत्यांच जजगत्यांच जगत जगत्यांच जगत जगत जगत जगत जगत्यांच जगत जगत जगत जगत्यांच जगत जगत जगत जगत्यांच जगत जगत जगत जगत्यांच जगत त्यक्तेन भुञ्जीथा भुञ्जीथास्त्यक्तेन त्यक्तेन भुञ्जीथा मामा भुञ्जीथास्त्यक्तेन त्यक्तेन भुञ्जिथा मा भुञ्जीथा मा मा भुञ्जिथा भुञ्जीथा मा गृधो गृधो मा भुञ्जिथा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 कुर्वन्नेवैव कुर्वन् कुर्वन् ने वेहेहैव कुर्वन् कुर्वन् नेवेह देवेःहै वैवेह कर्माणि कर्माणि है वैवेह कर्माणि इह कर्माणि कर्माणि हेह कर्माणि जिजिविषे जिजिविषेत् कर्माणि हेह कर्माणि विषे कर्माणि दिजि विषेद्यिजि विषेत्कर्माणि कर्माणि दिजि विषेच्छतज्ञे शतंिजि विषेत्कर्माणि कर्माणि दिधि विषेच्छतम् दिदि विशेषतज्ञे शतञ्जिजि विषेद्यिजि विषेच्छतां समा समाः शतञ्जिजि विषेद्यिजि विषेच्छतां समाः शतां समाः समाः शतज्ञशतां समाः समा इति समाः एवंतय्येवमेवन्तयिन न त्वय्येवमेवन्तयिन त्वयिन न त्वयित्वयिनान्यथान्यथा न त्वयित्वयिनान्यथा न्यथान्यथा नान्यथेत यतोऽन्यथा नान्यथेतःस्ति न नास्तीतोऽस्ति न अस्ति न नास्त्यस्ति न कर्म कर्म नास्त्यस्ति न कर्म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 लोका अन्धे नान्धेन लोका लोका अन्धे न तमसा तमसान्धेन लोका लोका अन्धे तमसा अन्धे न तमसा तमसान्धे नान्धेन तमसावृता आवृतास्तम सान्धे नान्धे न तमसा वृताः तमसा वृता आवृतास्तमसा तमसामृताः मावृता वृताग्रस्ताे प्रेताग्रस्ताग्रस्ते प्रे चे प्रे ते प्रेम्य प्रेत प्रेत्याभि प्रेत्याभ्यभिप्रेत्य प्रेत्याभिगच्छन्ति गच्छन्त्यभिप्रेत्य प्रेत्याभिगच्छन्ति प्रेत्येतिप्रा इत्या अभिगच्छन्ति गच्छन्त्यभ्यभिगच्छन्ति ये ये गच्छन्त्यभ्यभिगच्छन्ति ये गच्छन्ति ये ये गच्छन्ति ये के के ये गच्छन्ति गच्छन्ति ये के े चचके ये ये के च के चचके केचात्महन आत्महनश्चके केचात्महनः चात्महन आत्महनश्चात्महनो जना जनाः आत्महनश्चात्महनो जनाः आत्महनो जना जनाः आत्महन आत्महनो जनाः आत्महन इत्यात्मा हनः जना इति जनाः अने एजदे कमेकमने ए जदने एजदे कं मनसो मनस एकमने ए जदने एजदे कं मनसः एकं मनसो मनस एकमेकं मनसो जवी यो जवी यो मनस एकमेकं मनसो जवीयः मनसोजवी यो जी यो मनसो मनसोजवी यो नन जवी यो मनसो मनसोजवी यो न जमी यो नन जमी यो जी यो नैनदेनन्न जमी यो जी यो नैनत् नैनदेननैनद्देवा देवा एनन्ननैनद्देवा ेनवा देवा एनदेनद्देवा आप्नुवन्नाप्नुवन् देवा एन देनद्देवा आप्नुवन्मे देवा आप्नुवन्नाप्नुवन् देवा देवा आप्नुवन् पूर्वम् पूर्वमाप्नुवन् देवा देवा आप्नुवन् पूर्वम् प्नुवन् पूर्वम् पूर्वमाप्नुवन्नाप्नुवन् पूर्वमर्षदर्षत् पूर्वमाप्नुवन्नाप्नुवन् पूर्वमर्षते पूर्वमर्षदर्षत् पूर्वम् पूर्वमर्षते अरिषदित्यरिषते तद्धावतो धावतस्तत्तद्धावतोऽन्यानन्यान् धावतस्तत्तद्धावतोऽन्यानि धावतोऽन्यान्यान् धावतो धावतोऽन्यानत्यज्यान् धावतो धावतोऽन्यानति अन्यानत्यन्यान्यानत्येत्येत्यजन्यानन्यानत्येतीत्ये एष्ठत् तिष्ठतेत्यच्चे एति तिष्ठति स्मि व्यस्तस्मि गतिष्ठत्तिष्ठत्तस्मिन्नापोपस्तस्मि व्यस्तिष्ठत्तिष्ठत्तस्मिन् नमः tasmin na bho pastasmin gastasmin apoma adrishma ama tadishma pastasmin gastasmin apoma adrishma apoma adrishma ama tadishma bho bho ma adrishma adathaati tadhaati ma adrishma bho bho ma adrishma adathaati ्वाहा दधाति दधाति मातरिश्वाहा मातरिश्वाहा दधाति दधातीति दधाति तदे एजत्येजटि तत्तदे एजति नै जति तत्तदे एजति न येजति न नैजत्येजति नेजत्येजति नैजत्येजति नेजति मे जत्येजति ने जति दूरे दूर ए एजति नेजति दूरे ये यति दूरे दूर ए एजत्ये यूरव अन्तिकेन्ति कु दूर ए एजत्येजति दूरव अन्तिके दूरव अन्तिकेन्तिकौ दूरे दूरव अन्तिके भूयित्यो अन्तिक इत्यन्तिके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 सर्वस्य सर्वस्य सर्वस्य सर्वस्य सर्वस्य सर्वस्यास्य सर्वस्य सर्वस्य सर्वस्य सर्वस्यास्य ऊं यत्जोम सर्वस्यास्य सर्वस्य धर्मस्य धर्मस्यास्य वाक्यतो वाक्यतोस्य सर्वस्य सर्वस्यास्य वाक्यतः अस्य बाह्यतो बाह्यतोऽस्यास्य बाह्यतः बाह्यत इति बाह्यतः यस्तु ति यो यस्तु सर्वाणि सर्वाणि तु यो यस्तु सर्वाणि तु सर्वाणि सर्वाणि तु सर्वाणि भूतानि भूतानि सर्वाणि तु भूतानि सर्वाणि भूतानि भूतानि सर्वाणि सर्वाणि भूतान्यात्मन्नात्मन्भूतानि सर्वाणि सर्वाणि भूतान्यात्मन्ने भूतान्यात्मन्नात्मन्भूतानि भूतान्यात्मन्नेवैवात्मन्भूतानि भूतान्यात्मन्नेव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 yasmin sarmaani sarmaani yasmin yasmin sarmaani bhutaani bhutaani sarmaani yasmin yasmin sarmaani bhutaani sarmaani bhutaani bhutaani sarmaani sarmaani bhutaani jnaatmaaatmaa bhutaani sarmaani sarmaani bhutaani jnaatmaa ्यात्मात्मा भूतानि भूतान्यात्मैवात्मा भूतानि भूतान्यात्मैवा आत्मै देवात्मात्मैवाभूदभू देवैवा भूद्विजानतो विजानतो भूदेव भूद्विजानतः अभूद्विजानतो विजानतो भूदभूद्विजानतः जानतः तत्र कस्तत्र तत्र कोमो होमो हः कस्तत्र तत्र मो हक्क को मो ह मो हक्क शोक शोक क को मो हो मो हक्क शोक शोक शोक शोक शोक एकत्वमे तत्त्व शोक क शोक एकत्वं शोक एकत्तमे एकत्वग् शोकः शोक स परि परि सस पर्यगादगात् परि स सपर्यगात् पर्यगादगात् परिपर्यगाच्छुक्रज्ञ शुक्रमघात् परिपर्यगा शुक्रमकायमकायज्ञे शुक्रज्ञे शुक्रमकायमं प्रणमौ प्रणमकायज्ञे शुक्रज्ञे शुक्रमकायमं व्रणम् कायमं प्रणमौ प्रणमकायमकायमं प्रणमस्ना विलमस्ना ्रणमस्न विरमस्न विरमौ प्रणमौ प्रणमस्न विराम् शुद्धज्ञे शुद्धमपाः पविद्धमपाः पविद्धग् शुद्ध शुद्धमपाः पविद्धम् अपाः पविद्धमित्यपाः पविद्धम् कविर्मनीषी मनीषि कविः कविर्मषी परिभोः परिभोन्मनीषी कविः कविर्मषी परिभोः manije parbho parbho manije manije parbho svayam bho svayam bho parbho manije manije parbho svayam bho bho परिभो स्वयम्भो स्वयम्भोः परिभोः परिभो स्वयम्भोर्याथा तथ्यत याथा तच्छत स्वयम्भोः परिभोः परिभो स्वयम्भोर्याथा तच्छतः Svahyambhur – yeah <speaking in> tadath tthatà Svahyambhut Donald – Fahyambhur – yeah tadath tawrárttan Donald – Svahyambhur – yadath t radioactive svahyambhut Donald – Svahyambhur – Svahyambhur याथादक्षतोनक्थान्याथादक्षतो याथादक्षतोन्याथादक्षतो याथादक्षतोर्थान्मि याथात इति याथा व्यदधा ददधा विव्यदधा चाश्वतेभ्यः शाश्वतेभ्यो अदधा विव्यदधा चाश्वतेभ्यः अदधा चाश्वतेभ्यः शाश्वतेभ्यो अदधा ददधात् शाश्वतेभ्यः समाभ्यः समाभ्यः शाश्वतीभ्यो अदधा ददधा चाश्वतेभ्यः शाश्वतेभ्यः समाभ्यः समाभ्यः शाश्वतेभ्यः शाश्वतेभ्यः समाभ्यः समाभ्य इति समाभ्यः अन्धन्तमस्तमोऽन्धमन्धन्तमप्रदमोऽन्धमन्धन्तमः तमः प्रप्रदमस्तमः प्रविशन्ति विशन्ति प्रथमस्तमः प्रविशन्ति प्रविशन्ति विशन्ति प्रप्रविशन्ति ये ये विशन्ति प्रप्रविशन्ति ये विशन्ति ये विशंति विशंति ये विशन्ति विशन्ति ये विद्यामविद्या ये ये ये विद्यामविद्या ये ये विद्यामुपासतमुपासते ये ये विद्यामुपासते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 अन्यदेवैवान्यदन्यदेवाहुराहुरेवान्यदन्यदेवाहुः देवाहुराहुरेवै बाहुर्विद्यया विद्ययाहुरेवै बाहुर्विद्यया आहुर्विद्ययाः विद्ययाहुराहुर्विद्ययान्यदन्यद्विद्ययाहुराहुर्विद्ययान्यदे विद्ययान्यदन्यद्विद्यया विद्ययान्यदाहोराहुरन्यद्विद्यया विद्ययान्यदाहोः अन्यदाहोराहुरण्यदन्यदाहुरविद्यया विद्ययाहुरण्यदन्यदाहुरविद्यया आहुरविद्यया विद्यया होराहुरविद्यया अविद्ययेत्यविद्यया इति शुश्रुमशुश्रुमेति इति शुश्रुमधिराणाम् धीराणाग्ने शुश्रुमेतीति शुश्रुमधिराणा शुश्रुमधिराणान् धीराणाग्ने शुश्रुम शुश्रुमधिराणा ये ये धीराणाग्ने शुश्रुम सुमधिराणा ये धीराणा ये ये धीराणान् धीरा येन ये येनस्तत्तन्नो ये येनस्तत् नस्तत्तद्वितचक्षिरे वितदक्षिरे तन्नस्तद्विचदक्षिरे तद्विचक्षिरे विचचक्षिरे तत्तद्विचक्षिरे वितचक्षिर इति विचक्षिरे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 जयो यश्च जयस्तत्तद्यश्च जयस्तत् यस्तत्तद्यो यस्तद्वेदवेद तद्यो यस्तद्वेद तद्वेदवेद तत्तद्वेदोभयमुभयं वेद तत्तद्वेदोभयम् वेदोभयमुभयम् वेदवेदोभयांसहसहोभयं वेदवेदोभयांसः उभयांसहसहोभयमुभयांसहा सहेति सहा अविद्यया मृत्युम् मृत्युमविद्यया विद्यया मृत्युम् तीर्त्वा तीर्त्वा मृत्युमविद्यया विद्यया मृत्युम् तीर्त्वा मृत्यु ते त्वा तीर्त्वा मृत्युम् मृत्यन्तिर्त्वा विद्ययाः विद्ययाः तीर्त्वा मृत्युम् मृत्यन्तिर्त्वा विद्यया तीर्त्वा विद्ययाः विद्ययाः तीर्त्वा तीर्त्वा विद्यया मृतममृतम् विद्ययाः तीर्त्वा तीर्त्वा विद्ययामृतम् विद्ययामृतमममममममममममृतम् विद्यया विद्ययामृतमश्नुतेश्नुतेऽमृतम् विद्यया विद्ययामृतमश्नुते अमृतमश्नुतेश्नुतेऽमृतमृतमश्नुते अश्नुत इत्यश्नुते अन्धन्तमस्तमोन्धमन्धन्तमप्रकृतमोद्धमन्धन्तमप्र तमः प्रथमस्तमः प्रविशन्ति विशन्ति प्रथमस्तमः प्रविशन्ति प्रविशन्ति विशन्ति प्रविशन्ति ये ये विशन्ति प्रप्रविशन्ति ये विशन्ति ये ये विशन्ति विशन्ति ये सम्भूतिमसम् भूति विशन्ति विशन्ति ये सम्भूतिम् मुपासत उपासतेमुपासते असम् भूतिमुपासत उपासते भोतिमसम् भूतिमुपासते असम् भूतिमित्यसम् भूतिम् उपासत आसते